अथ षष्ठोऽध्यायः अध्यात्माभ्यसनं षड्वत्सरमितं कालं तीव्राध्यात्मिकशिक्षणं नरेन्द्रनाथसंलेभे गुरुसम्पर्कहेतुना श्रीरामकृष्णदेवस्य शिक्षणं विस्मयावहं स्वस्याशयानुसारं नैवापि परिचित्ते दिवे निजाध्यात्मप्रभावेण नर्मोक्त्या च कदाचन उपादिशसशिष्ये विज्ञानं पारमार्थिकं बाह्या चान्तरिका शुद्धिर्वैराग्यं सत्यसन्धता सर्वमेतत्त्व गुरुणा मुख्यत्वेन निरूपितं गुरोर्विशिष्टशिष्योऽभू सर्वथापि नरेन्द्रुवम् यत स दिव्यदौत्येन केनचिन् भुवमागतः नरेन्द्रं प्रति यत्प्रेम बभूव गुरुमानसे तेन कौटुम्बिकं दुःखं नरेण सोढुं क्षमोऽभवत् एतद्दुःखेन तच्चित्ते खिन्नभावोऽप्यजायत अनुकम्पातस्य चित्ते दीनान् प्रति एतस्य फलरूपेण तदीयं भाविजीवनं मनुष्यसेवनार्थं स उपयोक्तुम् अचिन्तयत् तत्कुटुम्बजनास्तस्य विवाहविषये तदा कुर्वन्त चिन्तनं चेति गुरुणा विदितं यदा सकालीमन्दिरं गत्वा प्रार्थयामास मातरम् नरेन्द्रो भवतिके कच्छे निमङ्कं नानुमन्यतां व्यवहारं नरेन्द्रस्य सर्वदा गुरुरैक्षत गुरुणा नानुमन्येत शिष्यस्य शुद्धचिन्तनं विज्ञाता गुरुवाक्यार्था नरेन्द्रेणैव तत्त्वतः अन्यशिष्यास्तदीयोक्तिं शृण्वन्ति स्म तु ते सर्वेऽप्यभवन्भक्ताः स्निह्यन्ते स्म च ते गुरौ तेषां विश्वास उद्भूतौ गुरुप्रेम्णि तु निश्चितं नरेन्द्रकृतधीरोऽभूत् प्रष्टुं प्रश्नान् गुरुं तथा ग्रहेतुं परमं सत्यं सदा स व्यग्रमानस हिन्दूधर्माशयान् काश्चिद् बाल्ये मातुः स लव्याध्ययनपद्धत्या तस्सर्वं शिथिलीकृतं तद्धर्ममूलतत्त्वानि पुनश्चापि पपाठस श्रीरामकृष्णदेवस्य शिक्षणक्रमहेतुनां देव एकोऽस्ति सर्वेषां धर्माणामिति सत्यतां गुरोरनुभवद्वारा नरेणपि गृहीतवान् धर्मस्य मृतिरे वासी गुरुश्चेति नरेन्मतिः अवतारित्वविषये चिन्ता तेन कृता न हि अध्यात्मानुभवा सर्वे गुरोस्तेन निरूपिता दिव्यत्तं गुरुदेवस्य तत्त्वतेन विलोकितं बुद्धिशक्त्या नरेन्द्रस्य विस्मयावभयाभृशम् गुरोरितरं शिष्यास्तु बभोवोस्तब्धमानता न केवलं दैष्णिकं दैहिकं चापि तद्बलं सर्वेषाम् अवाधानाय पात्रीभूतं विशेषतः तदीयगात्रम् अभवदों जस्तेजो म तथा आसीतप्रकाशभरितं तस्य लोचनयुग्मकम् तदीयगात्रम् अभूवदोजस्तेजोमयं तथा आसीत् प्रकाशभरितं तस्य लोचन्युग्मकं गायकस्य नरेन्द्रस्य नादो माधुर्यनिर्भर आकर्षकम् अभूदेवं तदीयव्यक्तिवैभवम् अत्यन्नतले यद्वा परमत्वे स स्वभावस्तस्य भवति पौरुषे यो न संशयः अत्रागच्छस्सु भक्तेषु न हि कोऽप्यस्ति तत्समः प्रियशिष्यं प्रति प्रोक्तम् इत्येवं गुरुणैकदा नरेन्द्रं प्रतियत् यत्प्रेम वर्तते स्वगुरो हृदि तत्कारणात्फलं श्रेष्ठं नरेन्द्रे समजायत स्वभावेन नरेणासीत्तत्त्वचिन्तनतत्परः गुरो गुरोरनुप्रमयीं गुरोरनुपम् अप्रेम्णा कालीभक्तस्य सोऽभवत् यज्ञानं गुरुणा लब्धम् अध्यात्मार्णवं मज्जनां तनि तु तत्तु सर्वत्र भुवि सज्जो भवन्नरेन् एतन्मध्ये गुरुर्हन्तकण्ठरोगेण पीडितः अम् अर्बुदो नाम रोगस इत्येवं सुचोदितम् विस्मृत्य वैद्यनिर्देशम् अध्यात्मविषयोपरि उपदेशं सभक्तेभ्यो यथापूर्वं प्रदत्तवान् मग्नो भूतस्य पुनश्चापि समाधौ बहु सस्तथा एतत्कर्मद्वयं तस्य व्याधुं भूयोऽप्यवर्धयत् च सार्थं सकल् सा कल्कत्ताम् आनीत प्रथमं तथा उद्यानभवनं काशीपुरग्रामस्थितं पुनः तत्रान्नशिष्यै सहितं गुरुसेवा रतो नरेन् भक्षपाकं अशेषेण गुरुपत्नी न वर्तयत् ज्येष्ठशिष्यै कृतो नूनम् आवश्यकधनं धनव्यय सेवनं सर्वमेतत्तु धन्यता चेति तै तैर्मतं गुरुदेवो यदा रुग्णो नरेन्द्रेण प्रदर्शितं निरीक्षणपटुत्वं च मनसपप्कता शपि अनन्यशिष्या गुरुर्व्याधिम् अधिकृत्याभिव्यञ्जयन् विकारावेशमन्त्यन्तम् उन्मादजनितं यथा नरेन्द्रेणोपहसितं तादृशं व्यर्थचेष्टितं स्वयं नियन्त्रणं तेन तानुद्देश्यानुशासितं गुरुदेवस्य वैराग्यम् ईश्वरप्रापणस्पृहां नरेन्द्र इतरान् शिष्यान् अनुकर्तुम् उपादिशत् आगामिनं स्वकीयान्त्यं गुरुरेव भवां जवाभयत् भवाभयत् नरेन्द्रेणापि विज्ञातं तस्य रोगस्य कौरवं तस्य रोगस्य गौरवं समैधत् नरेन्द्रस्य देवदर्शनवाञ्छितं शिक्षणं पाठशालायां सम्यग्रीत्याकरो अतितीव्रसमाधौ स दीर्घकालम् अवस्थितः अभुज्जागरिता तस्मिन् तदा कुण्डलने शपि दरे दरे नरेन्द्रस्य ध्यानौ सुक्यम् अवर्धत विस्मरेत स कदाचन कथञ्चिदपिं सम्प्राप्तुं जगदीश्वरदर्शनं प्रयुक्तये कदा तेन नव्योपायोऽपि कश्चन आलपन् राम रामेते पुणरात्रौ निरन्तरं स उद्यानभवनस्य परिक्रमणमाचरत् ज्ञात्वेदं गुरुणा प्रोक्तं नरेन्द्र त्वं करोषि किम् एतदेव मया पूर्वं कृतं द्वादशवत्सरान् दिनेषु तेषु माच्छिर्षे चण्डवात् सदाभवत् किं सम्प्राप्तुं तया सक्यम् एकस्यां निशि केवलम् तथापि प्रियशिष्यस्य यत्नेन मुदितो गुरुः स्वस्याध्यात्मिकलाजादो नरेण स्यादिति तन्मती निर्दिष्टवान् नरेन्द्रं च युवशिष्यानवेक्षितुं नरेन्द्रं निेतेतीं मन्तुं शिष्यान् स आदिशत् पश्चात्संन्यासदीक्षां स युवकेभ्यो ददावपि एवं स भाविसंन्याससिद्ध्यस्थापनमाचरत् गुरुदेवस्य शुश्रूषां कुर्वन्नासीद्यदा नरेन् अध्यात्मानुभवोत्कर्षं गुरोर्जग्जौष वस्तुतः शरीरवेदनां तीव्रां सहते गुरुः अन्तरे परमानन्दं निर्विघ्नं संवर्तत स्पर्शदर्शनमात्रेण तद्द्रिव्यानुभवं गुरुः स्वशिष्येभ्यः प्रेषयितुं अक्लेशं शक्तवानपि भौतिकानां पदार्थानां निसारत्नं तथाविधम् आत्मन परमार्थत्वं गुरुनैवं प्रदर्शितम् रोगग्रस्तगुरोपार्श्वे जना सन्निहितो नरेन् अमूल्याध्यात्मतत्वानि ग्रहीतुं समोऽभवत् एकाग्रीकृत्य चित्तं संकण्ठे रोगनिवारणं कर्तुं शक्यं गुरुणेति पण्डितः कश्चिदुक्तवान् नाङ्गीकृतं गुरुणा तद् यत स न हि अपनेतुं शस्य चित्तं काली मातुः सुनिश्चितम् उपायमुपली प्रोक्तं नरेणपि यदावदत् गुरुणोक्तं वदिष्यामि मातरं मेरुजां प्रति किञ्चित्काले गते तेन कथितं यत् मातरं उवाचकण्ठरोगात् स स्वप्नोति एतदर्थं तया किञ्चित् कृपया प्रियतामिति युष्मान् सर्वान् सूचयन्ति माता प्रत्युक्तवत्यपि एतत्सर्वमुखैः किं त्वं पर्याप्तं न हि खादसे श्रुत्वेदं नम्रशेष शन्नरेन्द्रो गुरवं निरवं सिता रोगग्रस्तगुरोपार्श्वे वर्तते स्म यदा नानाध्यात्मिकतत्वाने ज्ञातुं सर्तो बभूव च आत्मानो दिव्यभावश्च मायिकत्वं तनोरपि यथा शास्रे सुखस्कथितं नरेण विदितवान् तदा अमृतदैवतं रूपं कथं स्वीकुरुते स्वयं परित्राणाय लोकस्य नरेण तद बभूद च देवो मरुत्यो भवेद्भूयो मरुत्यो देवो भवेदपि नरेन्द्रयेतया रीत्या गुरुदेवं व्यलोकयत नरेन्द्रनाथनेतृत्वे बुद्धिशक्ति समन्विते उद्यानभवनं जातं विश्वविद्यालयो लघु नरेन्द्रो धर्मविषये तत्त्वशास्त्रोपरि शपि युवशिष्यैषमं कुर्या विस्तरेण निरूपणं हिन्दूक्रैस्तव मुस्लिमं बुद्धधर्माशयस्तथा प्राच्य प्रतीच्यचिन्ताश्च विस्तरेण विचारिता बुद्धं प्रति नरेन्द्रस्य प्रीतिरासीर्विशेषतः निद्राभ्यां सहितं बोधगयां स गतेकदा ध्यानमग्नसास्ति स्म बोधिवृक्षतले चिरं बुद्धदेवस्य सान्निध्यं तदानीं सोऽनुभूतदं भूतवान् मित्वा तदीयतत्त्वानि येषां श्रेष्ठफलान्यपि विकारविवशो भूत्वा रोदनं कृतवान् निर्वाहं परिचिन्तयन् एकैकेऽपि युगे देवो भिन्नरूपं स्वयं वहेन् समाध्यवस्था बहुला नरेन्द्रेण समर्जिता नरेन्द्रः किन्तु सन्तृप्तस्तत्सर्वेणापि नाभवत् निर्विकल्पसमाध्यर्थे स आसीद् व्यग्रमानसः श्रीरामकृष्णदेवं स निजवाञ्छाम् असूचयत् परन्तु गुरुदेवेन न किञ्चिदभिभाषितं तत्पश्चादेकदा सन्ध्यासमये सहसा नरेन् तमेवानुभवं लेभे विशिष्टं विस्मयामहम् तदीय ध्यानसमये प्राञ्जलत्कापि दीपिका पृष्ठतस्तस्य शिरसस्य स इत्येवं यभावं भावयत् प्रकाशस्तस्य दीपस्य प्रदीक्षणम् अवर्धत अनन्तस्तत्प्रकाशस्य स्फोटनं चाप्यजायत् क्रस्तः सन् तेजसा तेन बोधहीनोऽ भवन्नरेन् अल्पकाले गते भूय पूर्वस्थितिमवापस अन्नभूष तदा स्वस्य शीर्षमेवं तनुं नहि कुत्रास्ति मम गात्रं स प्रपक्षसृहृदं शुकं तत्रैवास्ति नरेन् किं वा तद्वया नानुभूयते गोपालो नाम तन्मित्रम् इत्येवं तमभाषत तथा स धावितं त शीघ्रं सम्भ्रान्त प्रति व्यवहारं नरेन्द्रस्य स गुरुं प्रोक्तवानपि ज्ञात्वा प्रागेव सकलं गुरुणोक्तं तथास्तु स किञ्चित्कालं यतो मां स तदर्थं ब्रह्म पुनर्लेभे नरेन् बोधम् अल्पकालो गतो यदा अनिर्वाच मनःशान्तिं तदा निंशो भूतवान् यदातेन तेन गुरुदृष्टो गुरुणैव मुदीरितं सर्वमेवाधुना माता सुव्यक्तं त्वामदर्शयत् किन्तु रत्नं यथा लघुपेटके स्थितं तद्वत्सिद्धरे सावतेत मम रक्षणे कुञ्जिकामं हस्ते स्यात्तव दौत्यं यदा भवे द्रविष्येत तदैव स्यात् व्यपे, व्यपि ज्ञायेत केवलं तस्मिन् समये सकलं तया अधुना यया रीत्या ज्ञानवानसि अन्यशिष्या अपि प्रोक्ता गुरुणा पुनरेकदा यथा स प्रकृतिशाश्वस्य जिदा भूयते। नानुभूयते समेधया निजदेहं परित्यजे नैसज्जो भवेद्भूयो जीवितुम् भुवने स च बुद्धिशक्त्या तथाध्यात्मशक्त्या स्वस्य सविद्रुतम् एतद् विश्वम् अशेषेण निश्चयेन दूरे स्थापयितुम् तस्माद् ब्रह्मज्ञानं निगूहितुम् माया तस्य नेत्राभ्याम् काली माता मया अर्चिता बहूनि सन्ति कार्याणि परन्तु मायावरणं सूक्ष्मम् अस्तीति मे मतिः भिन्नं भवेत् कदाचिन् तदित्येवं नरेन्द्रम् अधिकृत्यैवं गुरुशिष्यानभाषत श्रीरामकृष्णदेवस्तु मृदुलश्चापि पेलवः श्रीमायमरुतवंशस्य प्रयासं कर्तुमक्षम् अपेक्षते तदस्ते न कश्चित् प्रबलमानसः ते अत्यन्तं योग्यमानुष नरेन्द्रो निजकर्तव्यं यावस्सम्पूरयेन्न निर्विकल्पसमाधौ स तावमग्नो भवेन्न इत्येवं गुरुदेवेन नरेन्द्रं प्रति चिन्तितं प्रार्थनामेव समातरं समातनं ते देवस्य कंठरोगो दिने दिने अवर्धत् तथा कष्टम् असि असि से अस्ति शेषो बभूवच तथापि निजशिष्येभ्यो ददां तद् दददासीतसिक्षणम् नरेन्द्रं प्रति यत्क्लेश तस्याशेषोऽपि निर्गतः अङ्गीकृतं नरेन्द्रेण मातुर्वैभवमन्तत यः शक्ति सर्वस्तूनियच्छति चराचरे रुग्णेन गुरुणा पत्र खण्डे लिखितम् एकदा अद्यारभ्य नरेन्द्र नरेन्द्रशिष्यान् अध्यापयेदिति नाहं कुर्यामिति प्रोक्तं नरेन्द्रेण यदा गुरु साधितव्यं तया तत्त्वो निश्चयेनेत्यभाषत नरेन्द्रं गुरुरण्स्मिन् समये प्रोक्तवान् च यत् प्रकाशेरणं नरेन्द्वारा नरेन्द्र पूर्णत स्वस्य सिद्धयः गुरुर्मः समाधि प्रा त्रिचतुर्दिवसान्तरे समाह्वयन्नरेन्द्रं च स्वकीयशमनं शयनं प्रति व्यलोकयन्नलोकयन् नरेन्द्रं स स्थिरदृष्ट्या तत् परं समाधावत्यकाधे च गुरुर्मग्नो बभूव च विद्युत्प्रवाहसदृशी काचित् शक्तिर्विवेशतु नरेन्द्रस्य तनुं चेति तदा तेन विभावितं वाच्यबोधो नरेन्द्रस्य नष्टीभूत बोधस्तेन पुनर्लब्ध ज्यलोकयत्तदं तदानीं स बुलपन्तं निजं गुरुं पृष्टवान् गुरुदेवं सकारणं रोदनस्य च गुरुणोक्तं हे नरेन्द्र यत्किमस्ति ममाधुना तत्सर्वं प्रदौतेऽहं जातोऽहं निष्वयाचकः यशक्ते स्वे सङ्क्रान्तामस्यकाशात् बहूनि श्रेष्ठकार्याणि विश्वे त्वं साधयिष्यसे यावत्त्वं तार्यं तानि कार्याणि न कुर्यां परिपूर्णतः प्रतिगच्छेन् तावत्त्वं तत्र त्वं यत् आगतः आध्यात्मिकप्रभावो यो यत्नेन गुरुनार्जितः अप्रत्यक्षितरीत्या स नरेन्द्रवसमागतः एवं नरेन्द्रनाथोऽभूद् गुरो सन्देशवाहक तदासीजीवनोद्देश्यं तस्य दैवतकल्पितं गुरुर्देहं गुरुर्देहवियोगाय यदा शिष्टं दिनद्वयं नरेन्द्रस्तस्य माहात्म्यं प्रत्यक्षमनुभूतवान् गुरुदेवस्य शय्याया समीपं तिष्ठति विचित्रचिन्तनं कृत्ये तदा भूतस्य मानसे गुरो किमवतारोऽस्ति दैवतस्य यथार्थत यद्देवं तद् वक्तव्यं तेनैवासन्नमृत्युना एवं विचिन्तसोपश्यति गुरोर्वक्रं निरन्तरम् आरेभाते गुरोरुष्टौ चलनं तु शनैः शनैः हे नहि किं छिन्न संशय यः पूर्वम् अवद्न् अवद्राम कृष्णश्च तदनन्तरं सा एव रामकृष्णसन्न्यस्मिन् देहेऽपि वर्तते तव वेदान्तपद्धत्या किन्तु नैवेति मन्यतां यं प्रश्नं तु नरेन्पूर्वं प्रपक्षनिजचेतसी तदीयोत्तरमित्येवं प्रदत्तं गुरुणा धृतं रामस्य चापि कृष्णस्य पदव्यां स्थापयन् स्वयम् स्वकीयमवतारनृत्वं गुरोख्यापीतवान् खलु द्वे दिनानन्तरं रात्रौ नरेन्द्रं गुरुराहव्यन् मन्दवाण्या नरेन्द्राय ददावन्त्यानुशासनम् उत्कण्ठाभरितः शिश् भरिता शिष्या स्थित्वा सर्वे समन्तत हरिवौं तस्य हरि ओं तस्य दित्येवं गुरुरुच्चार्यत्काली नामवारत्रयं तथा महासमाधिं सम्प्रापयत प्रत्यागतो न च तदीयभौतिकं गात्रं गङ्गातीरे व्यवस्थिते मशाले विधिवद्दग्धं तस्य शिष्यजलैः परम् एकस्मादितरं कोष्ठं केवलं गतवानहम् गुरुवाक्यमिदं मातृदेव्या विधवया श्रुतं एकवारान्तरे पश्चाद्युद्यानभुवनान्तिके इतस्ततो भ्रमण् आसीन्मित्रेण सहितं धरेन् किञ्चित् तेजोमयं रूपं तेन तिष्ठं पुरस्तदा श्रीरामकृष्ण एवासीतदेत्यस्मिन् संशय तदिस्मन् तदेत्यस्मिन्न संशयः भ्रम एव तदित्येवं नरेन्द्रेण विचिन्तितं तदीयश्च शिष्यस्तु विस्मयस्ति मितोऽभवत् पश्य पश्य नरेणेव उच्चैरुद्धोष्टवान् गुरुदेवस्य इत्येवं नरेन्द्रो जातनिश्चयः अन्यशिष्यान् तद्रूपं द्रष्टुमाहूतवान् जला तेजोमय शरीरं तन् प्रत्यक्षम् अभूत् अभूदपि अभूद